अथ श्रीमहाभारते आदिपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः वैशम्पायन उवाच पाण्डवान्धार्तृराष्ट्रांश्च कृतास्त्रान् प्रसमीक्ष्यसः गुर्वर्थम् दक्षिणाकाले प्राप्ते मन्यत वै गुरुः ततः शिष्यान् समानीय आचार्योऽर्थमचोदयत द्रोणः सर्वानशेषेण दक्षिणार्थम् महीपते पञ्चालराजम् द्रुपदम् गृहीत्वारणमूर्धनि पर्यानयत भद्रम् वः परमदक्षिणा तथेत्युक्त्वा तु ते सर्वे प्रहारिनः प्रहारिणः आचार्यधनदानार्थम् द्रोणेन सहिताययुः ततोऽभिजग्मुः पञ्चालान्निघ्नन्तस्ते नरः शभाः ममृदुस्तस्य नगरम् द्रुपदस्य महौजसः दुर्योधनश्च कर्णश्च युत्सुश्च महाबलः दुःशासनोऽविकर्णश्च जलसन्दः सुलोचनः एते चान्ये बहुविक्रमाः अहम् पूर्वमहम् पूर्वमित्येवं क्षत्रियः ततो वररथारूढाः कुमाराः सादिभिः प्रविश्य नगरम् सर्वे राजमार्गमुपाययुः तस्मिन् काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद्बलं। भ्रातृभिः सहितो राजन् स्वरया निर्ययौ गृहात् ततस्तु कृतसन्नाः यज्ञसेनसहोदराः शरवर्षाणि मुञ्चन्तः प्रणे दुःसर्व एव ते ततो रथेन शुभ्रेण समासाद्य तु कौरवान् यज्ञसेनः शरान् घोरान् ववर्ष वैशंपायन दुर्जयः वैशम्पायन उवाच पूर्वमेव सम्मन्त्र्य पार्थो द्रोणमथाब्रवीत् दर्पोद्रेकात्कुमाराणामाचार्यम् वि च सत्तमम् एषाम् पराक्रमस्यान्ते वयम् कुर्यामसाहसम् एतैरशक्यः पाञ्चालो ग्रहीतुम् एवमुक्त्वा तु कौन्तेयौ भ्रातृभिः सहितो नगः अर्धक्रोशे तु द्रुपदः कौरवान् दृष्ट्वा प्राधावदसमन्ततः शरजालेन महता मोहयन् कौरवीञ्चमूम् तमुद्यतम् रथेनैकमाशु कारिणमाहवे अनेकमिव सन्त्रासान्मेनिरे तत्र कौरवाः द्रुपदस्य शरा घोरा विचेरुः सर्वतो दिशं ततः शङ्काश्च भेर्यश्च सहस्रशः प्रावाद्यन्तमहाराज पाञ्चालानाम् निवेशने सिंहनादश्च संजज्ञे पाञ्चालानाम् महात्मनाम् धनुर्जातलशब्दश्च संस्पृश्य गगनं महान् दुर्योधनो विकर्णश्च सुबाहुदीर्घलोचनः दुःशासनश्च संक्रद्धः शरवश्रैरवाकिरन् सोऽतिविद्धो महेश्वासः पार्श्वतो युधि दुर्जयः व्यधमत्तान्यनीकानि तत्क्षणादेव भारता दुर्योधनं विकर्णञ्च कर्णञ्चापि महाबलं नानानृपसुतान् वीरान् सैन्यानि च अलातचक्रवत्सर्वं चरन् बाणैरतर्पयत्